नारदपुराणम् उत्तरार्धम् अध्यायम् सेवेण्टिसिक्स् अथ सेतुमाहात्म्यमारभ्यते मोहिन्युवाच साधुसाधु यन्मे रामायणं त्वया श्राविदं सर्वपापक्नं नृणां पुण्यविवर्धनम् अधुना श्रोतुमिच्छामि सेतुमाहात्म्यमुत्तमं वसुरुवाच शृणु देवि प्रवक्ष्यामि सेतुमाहात्म्यमुत्तमम् यं दृष्ट्वा मनुजो देवि मुच्यते भवसागराद सेदो सन्दर्शनं पुण्यं यत्र रामेश्वरो विभुः दर्शनादेव मर्त्यानामरत्वं प्रयच्छति रामेश्वरं तु सम्पूज्य नरो नियतमानसः सर्वासमश्नुदे भूतिर्नात्रकार्या विचारणा चक्रतीर्थमिहान्यच्च वर्तते पावनाशनम् स्नानं दानं च भो होमस्तत्रान्यं विगाहदे कालतीर्थं दुःसम्प्राप्य यस्नायस्तत्र मानवः स उत्तमां जनिं लब्ध्वा मोददे देववद्भुवि ततः सम्प्राप्य सुभगेतीर्थं स्नात्वा निर्धूतपापोऽस्सौ नरः नरस्वर्गे महीयते सीताकुण्ठे ततः प्राप्य स्नानं सम्यक् विधाय च तर्पयित्वापि दृन्देवान् सर्वान् कामान्वाप्नुयाद मङ्गलं तीर्थमासाद्य स्नात्वा श्रत्वैवामृदवाप्यां तु मानवो मरदां लभेद ब्रह्मकुण्डे नरस्न अत्वा ब्रह्मलोकमवाप्नुयाद स्नात्वा लक्ष्मणतीर्थे वै नरो योगगतिं व्रजेद जडातीर्थे नरस्नात्वा अत्वा नीरोगो ध्यायदे भुवि हनुमत्कुण्डके स्नात्वा दुर्जयो जायतेरिभिः अगस्त्यतीर्थ आप्लुत्य पुत्रवान् धनवान् भवेद् रामकुण्ठे प्लुदे मर्त्यो रामसालोक्यमाप्नुयाद लक्ष्मीतीर्थाभिषेकेण लक्ष्मीवान् रूपवान् भवेद अग्नितीर्थे नरस्नात्वा मुच्यते सर्वकिल्बिषैः स्नानेन शिवतीर्थे दु शिवलोकगतिर्भवेद् सङ्गतीर्थे दु संस्नादो न नरो दुर्गतिं व्रजेद यमुनादिषु तीर्थेषु नरस्नात्वा दिवं व्रजेत कोवितीर्थे दुःसम्प्लुत्य सर्वतीर्थफलं लभेत साध्या मृदे प्लुतो यागि नरः सलोकतां, सर्वतीर्थे नरः स्नात्वा लभेत् कामानभीप्सितान् धनुष्कोट्यां तु विधिव स्नादोमुच्यते बन्धनाद क्षीरकुण्डाप्लुतो मर्त्यो भोगानुच्चावल्लभेद कपितीर्थे नर स्नात्वा न वि योनिं समालभेद गायत्र्यां च सरस्वत्यां स्नादो मुच्यदखिल्भिषाद ऋणमोचनतीर्थादौ स्नात्वा मुक्तो भवेदृणाद इत्येतत्सेतुतीर्थानां माहात्म्यं गदिदं शुभे पठतां शृण्वतां चैव सर्वपादकनाशनं यदि श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागवसुमोहिनीसंवादे स सदु माहात्म्य सेतुमाहात्म्य नाम षट्सप्ततितमोऽध्यायः ओ